श्रीहरये नमः अत चतुष्षष्टितमोऽध्यायः श्रीशुक उवाच एकदो भवनं राजन् जग्मुर्य कुमारकाः विहर्दुं शाम्बप्रद्युं न चारुभानुगदादयः क्रीडित्वा सुचिरं तत्र विचिन्वन्तः जलं निरुदगे ददृशुः सत्त्वमद्भुतं कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः तस्य चोद्धरेण यत्नं चक्रुस्ते कृपयान्विताः शर्म बत्वापतितमर्भगाः पासेन् भत्वा पतितमर्भगाः नाशग्नुवन्समुद्धर्तुं कृष्णाया भगवान् विश्वभावनः वीक्षोज्झकार वामेन सलीलया स उत्तमश्लोकराम् विमृष्टो विहाय सद्यकृकलासरूपं सन्तप्तसामीकरचारुवर्ण स्वर्ग्यत्पुलधाङ्करणाम्भरस्र पप्रश्च विद्वान् अभितन्ति धानं जनेषु विज्ञापयितुं मुगुन्तः कस्त्वं महाभागवरेण्यरूपो देवोत्तमं त्वां गणयामि तासामिनां वा कथमेन कर्मणा सम्प्रामितोऽस्य तत तर्क सुभद्रा आत्मानमाख्याकिविवित्सतां नो यन्मन्यसेन क्षममत्र वक्तुं श्रीसुक उवाच इति स्म राजा सम्पृष्ट माधवं प्रणिपत्याह क्रीटेनार्क्वचसा नृग उवाच मृगो नाम नरेन्द्रोऽहम् इक्ष्वाहोतनयः प्रभो दानिष्वाख्यायमानेषु यदि ते कर्मणस्पृशं किं नो विदितं नाथ सर्वभूतात्मसाक्षिणः कालेनाव्याघतदृशो वक्ष्येतापि तवाज्ञया यावत्यशिकता भूमेत्यो या दिवि तारकाः यावत्यो वर्षधाराश्च तावती रधतां स्म गाः पयस्मिनी श्रुतरुणीशीलरूप गुणोपपन्ता स्वकृतेभ्यो गुणशीलव्य सीधत्कुटुम्बेभ्य ऋतौ व्रतेभ्यः तपः श्रुतः ब्रह्मवधान्यसद्भ्य प्राधां युवभ्यो द्विजभुङ्गवेभ्यः गोपूकिरण्यायतास्तवहस्तिन कन्या सदासि स्थिलरूप्यसय्याः वासांसि रत्नानि परिच्छदान्रता निष्ठञ्च कस्यचिद्विजमुख्यस्य भ्राष्टा गौर्ममद्गोतने संपृक्ता विदुषा सा विदुषा सा च मया धत्ता द्विजायते सम्पृक्ता विदुषा सा च मया धत्ता द्विजातये तां नीयमानां तत्स्वामी दृष्टो वाच ममेति तं मामेति मृगो मे धनानिति विप्रौ विदधमानौ मामोचतुःस्वार्थसाधकौ भवान् दतापहर्ते ते तच्छ्रुत्वा मे अनुनीतावुभौ विप्रौ धर्मकृच्छरकदेन गवां लक्ष्यं प्रकृष्टनां दास्यां येषां प्रदीयतां भवन्तावनुगृह्णीतां किङ्करस्याभिजानतः समुद्धरं तां कृश्च पतन्तं निरये शुचो नाकं प्रीतिश्चे वयं राजन्नित्युक्स्वायम्बाक्रम नान्यद् गवामप्ययुध मिच्छामीत्यपरो यौ एतस्मिन्नन्तरे यां ये धूतैर्नीतो यमक्षयं यमेन पृष्ठस्तत्रागं देवदेवजगत्पते पूर्वं त्वमशुभं भुङ्क्षे उदाहो नृपते शुभं नातं दानस्य धर्मस्य पश्ये लोकस्य भाष्मतः पूर्वं देवाशुभं भुञ्ज इति प्राक् पतेति सः तावदत्रा क्षमात्मानं कृकलासं पथन् प्रभो ब्रह्मण्यस्य वधान्यस्व तव केशव स्मृतिर्नात्याभिविध्वस्ता भवत्सन्तर्शनार्तिनः सत्वं कथं मम विपोक्षिपतः परात्मा योगेश्वरै श्रुतिस्तृचामश्लहृद्विभाव्यः साक्षात् तदोक्ष उर्व्यसनान्त बुद्धेः श्यान्मेनोत्तुष्य इह देवदेवजगन्नाथ गोविन्दपुरुषोत्तमं नारायणऋषिकेश पुण्यश्लोकाश्च्युतव्यया अनुजानीहि मां कृष्णयान्तं देवगतिं प्रभो यत्र क्वापि सुतश्चेतो नमस्ते सर्वभावाय ब्रह्मणेनन्दशक्तये कृष्णाय वासुदेवाय योगानां पतये नमः इत्युग्धा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना मानार्घ्यम् अरूहत् पश्यतां नृणा कृष्णः परिजनं प्राह भगवान् देवकी सुतः ब्रह्मण्य देवा धर्मात्मा राजन्याननुशिक्षयन् दुर्जरं भत ब्रह्मस्वं भुक्तमग्नेर्मीं ते जीयसोऽपि किमुत ब्रह्मस्वं हि विषम् प्रोक्तम् नास्य प्रतिविधिर्भुभिषमत्तारम् वन् प्रसामयति कुलं समूलं दहति ब्रह्मस्वारणि पावकः ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्तित्रभूरुषं प्रसह्यदुबलात् भुक्तं दश पूर्वान् दशापरान् राजानो राजलक्ष्म्यान्धान्नात्मपातं विचक्षते निरङ्गेऽभिमन्यन्ते ब्रह्मस्वं साधुबालिसाखा गृह्णन्ति यावतः पां विप्राणं कृतवृत्तीनां वधान्यानां कुटुम्बिनां राजानो रजकुल्याश्च तावतोब्धानिरङ्गुसाः कुम्भीपाकेषु पश्यन्ते ब्रह्मदायापहारिणः स्वधत्तां परधत्त्वां वां ब्रह्मवृत्तिं हरेचयः षष्टिवर्षसहस्राणि मुष्टायां जायते कृमिं न मे ब्रह्मधनं भूयात् यत्कृद्वाल्पायुरुषो नराः पराजिताश्युता राज्यात् भवद्युद्वेदिनोहयः विप्रं कृतागसमपि नैव दृह्यतमामकाः ग्नन्तम्बकुशपन्तम्ब नमस्कुरुत नित्यसः यथाहं प्रणमे विप्रानुकालं समाहितः तथा न मदयोयं चयोन्यथा मे स दण्डभा हर्तारं पातयत्यधः अजानन्तमपि ह्येनं मृगं ब्राह्मणगौरिव एवं विश्राव्य भगवान् मुगुन्तो द्वारकौकसहां भावनः सर्वलोकानां विवेशनिजमन्दिरम् इति श्रीमद्भागवते महापुराणे तत्समस्कन्ते उत्तरार्दे नृगोभाग्यानं नाम चतुष्षष्टितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरण गोविन्द गोविन्द सद्गुरोनाथमघराज् के जय